वो याओ याओ बाओ बाओ दिच्छं ग्रन्थेयाद्यं यच्छाविमुच्चय सा नगता यादिच्छं क्रियते तादृगे पदद्विमक्तोन्यो न विमक्तोन्योसादित्यं ग्रन्हादि यज्ञस्य सन्दत्ते पत्यन् बालभदेपत्येवारेण्यस्य देवत्यदेवानपदन् नर्मपदे यद्वैपत्रे यज्ञस्य करोति या देवेश यज्ञस्या े यावद्भर्वे राजानुजरे रागच्छति सर्वे भोमे व्यादित्यङ्क्रियदेशं रागं त्रि खलु वे होमस्य राज्ञानुजरान्यज्ञेनाधिच्छमधिवेष्णवे तेत्याः गायत्र्या एवेदेन खलु जि होमस्याधिच्छमधि विष्णवे तेत्याः तृष्टुभ एव खलु त्रिजेराधिच्छमधि विष्णवेत्याः जगत्या एव ृह्णे विष्णवे चेत्याः निष्भये वेतेन करो निश्चेनायत्वाष्णवेत्याः गायत्र्या एवेतेन करादिपञ्च कृत्वा गृह्णादिपञ्चाकरान्तो यज्ञो यज्ञमेवावन्धे ब्रह्मपादिना वदन्ति कस्मा सत्याः गायत्रिया ममाहरत्तस्मा गायत्रयानुभयद आयुच्छस्य क्रियदेवदस्ता चोपरिष्टाच्च शिरो वा येन यज्ञस्य विदायिच्छन्नभगवान पुरोटा च भवति तस्मान्नभगवान पुरोटा च भवति ते त्रयस्त्रिगपालास्त्रिवृतास्तोमेन संविधास्तेजस्त्रिवृत्तेज एव यज्ञस्य न भगवान पुराणात्रयस्त्रिकबालास्त्रवृता प्राणेन संविदास्त्रवृत्तये प्राणस्त्रवृतमेव प्राणमपि पूर्णयैक्यश्च दीर्घं गता प्रजापदे पक्ष्माणि गतस्व बालाये क्षवेकदास्व बालः प्रस्तरभवस्ते क्षमेतिरश्चेत् प्रजापते रेवदश्चक्षुसम्भरति देवावीयानुष्का देवार्यमपश्यन् कर्मण्योऽपि कर्म कुर्वेदे कुर्म तैर्वेदेक्षागश्च वाहत्ते सरिशय जक्षदामन्नवजाना जनपुरस्तात् परिदधात्यादित्योद्यो जरस्ताद्रक्षागश्च ष्टादेव रक्षागस्य वहन्ति यजुधा ब्रह्मपादिना वदन्तज्ञश्च सोमश्च कथा सोमानाधिम् वसित्वा प्रहृवाग्न आदिथ्यम् क्रियते सोऽखम्बाहुरज्ञः सर्वादेव ेवता इति यद्धविरासाद्याग्निम् मन्थ देहव्यायैवासन्नाय सर्वा देवता च ले देवासुराः संयक्ताः सन्ते देवाभिसो मित्रियाः सन्तेरस्मै देच्छाया पञ्चधामन् वसुभिः सोमो रुद्रेन्द्रामृद्भिरुणहायम् विषो विप्रिया स्म जालयिमा प्रियास्तन हस्ताः समाजायताभ्यस्तनि प्रथमा ्रातुर्यानि भवते भवत्यात्मनापरास्य भ्रातु्या भवतित्वा पद्यति पञ्च साहिदत्समवाद्यन्ताक्षरापञ्चपान्तो यज्ञो यज्ञमेवावरुन्ध आपदयेत्वा ग्रन्थानेत्याह प्राणो वा आपदि ीणादिपरिपदयित्याह मनो वे परिपदेवत्याह तनवो हिदास्समवाद्यन्तशाक्मरायेत्याह शक्ते हि देदास्समवाद्यो ज्येत्याहोजिष्ठकं हि कदात्मनः समवाद्यन्तानाधृष्टमश्चनाधृष्टमित्याहानाधृष्टेवामोदयत्याह देवाना ैतक्षरं जयत्ता नो नेण प्रजलन्त्रंशरपुंसते हरिदेवास्यापन्मीय देव देवाश्रीरे यत्या दुर्भिन्द्रह्यायतामाक्रविन्द्रायप्यायस्तेत्याहो भावेवेन्द्रञ्जसो मञ्चाप्यायत्याप्यायधेन् संज्ञा मेधयेत्याहत्रियोजो वा अस्य सखायस्तामेवाप्यायजस्वस्ति चेदेव सोम सुज्ञामधेत्याेतामासास्ते प्रमायोकार्चवन्ते ये सोमः ज्यायम् गण्डलिक्षदेवक्यो हि सोमःप्यायतये स्थानाय प्रेषय भगाय पृथिवेभ्यामेव प्रतिष्ठन्ति देवासुराश्रयं प्राविशन्तस्मादाहुरज्ञः सर्वा देवता इति कृत्वा सुराण्याग्निमिव खलु वा य प्रविशति यो वाभ्यातम्या विभोक्तेभवत्मना वराहाभ्यातम्य भवत्यात्मानमेव देक्षया माधिप्रजाममान्तरदेक्षया भवति मदन्ते धर्माज्रयते ए पुर आसन्न यस्मैता देवाय कुर्वन्तास्मादाह्यश्चैवकुर्वतां सामगुं शल्यं विष्णुन्त्य जनन्ते क्रोरः ृणा द्रव्यपराणुलिम् पुरस्ताद् ज्युहयामाहुलिम् पुरस्तात् ज्युहयादण्ड्यन्मुखं कुर्यात् द्वैराघारमाधारयते यस्य क्रम्य जति पराजदेवे भो लोकेभ्यो भ्रातुर्व्यान् प्रणुदज पुनरायाक्रम्य प्रतरञ्जहोति प्रणुजेवे लोके भ्रातुर्यित्वा भ्रातुर्योहज देवालय प्रातरुपसद उपासेन्दस्ताभिरन्तया साय रात्रिगेताभिर्यत्सायम् प्रातरुपसद होरात्राभ्यामेव्यान् प्रणुतुया प्रास्ता सायं पुरोणवाक्या कुर्यादयामुय विश्व भैदित्र्य इमे लोका इमानेव लोकान् प्रेणादिपद्यते षड्वारत भरतो नेव प्रेणादि द्वादशायेन सोम वैद्य द्वादशमासा संवत्स्रम् त्सरमेव प्रेणातितुर्विंशति सम्पद्यन्ते चतुर्विंशतिरर्धमासाः अर्धमासा एव प्रेमात्या ेषामुपेयाज्ञः कामयेदास्मिन्मे लोकेऽभुग्रस्यादित्येकमग्रे छद्भावछत्रेण चतुरेषावाराग्रावान्तरदीक्षास्मिन्नेवस्मि लोकेऽभुगं भवति परोवरे य शीवान्तरदेवयः कामयेदामुष्मिन्मे लोकेऽभ्युग्रस्यादिति चतुर्ग्रे छत्रेण छद्भावमेढावे परोवरे यस्य क्षामस्मिन्नेवस्मै लोकेऽर्धृकम् भवते। स्वर्गम् वा एते लोकयम् दियमुपस उपयुज्यते ते हीयत एव सुनेशेति सोम्यदाश्रान्तो हीयत उदस निष्पाय सहवसति तस्मात् सकृतन्ये यदा परमुन्नयेतोन्नये दैतत्वे पशोनागम् रूपगम् रूपेणैव पशूनवन्धे यज्ञो देवेभ्यो निराय राष्ट्रो रूपेण न्तमिन्द्रमुपर्यपर्यचक्रामत्स ब्रवे त्वमार्यपर्यपर्यचक्रमेदित्यहं दुर्गेऽहन्ते चगत्वमित्यहं दुर्गादाहत्येति स ब्रवेत् दुर्गेवेहन्ता वोचथा वराहोऽयं वामोषः सप्तानाञ्जिरीणां परस्ता वित्तं वेद्यमसुराणां दुर्गे हन्तासीति सदर्भपुञ्जेन सप्तगिरे दुर्गाद्वाहर्तावोचथायेतमाहरे तमेभ्या यज्ञ एव यज्ञमाहर्तज्ञ नित्यम् वेद्यमधुरानामविन्दं तदेकं वेद्येवे नित्तमसुराणाम् वाय्यमग्रादेत्यावदासेन ्रुवन्नस्पेमीयद्वौ दियावंसृजे त्रिपरिक्रामजितावन्नो दत्तेन्द्रस्तृगे कृत्वा सर्वतः परिच्रामत्तमामविन्दन् जयति मामविन्दन्त्रगुंसावायजगं सर्वैवर्यति शतिः पुरस्ताः तिरस्थे दशदशीरा देवान्नाद्यमवरुन्धबुद्धन्ति देवास्यामे पराभवन्ति बलिहिष्कृणालिस्मादोषयः पुनराभवन्त्युत्तरं बलिहित्तर बलिहिष्कृणालि प्रजा मे बलिहर्यजमानमुत्तर बलिहर्यजमानमेवायजमानादुत्तर ङ्गनो विवस्मात् यजमानो यजमानादुत्तरः यद्वादीशामा भारमादत्ते सद्वादशताह्नस्य मधतस्य तिश्रोहीनस्तेज्ञस्य विलोमः क्रियते तिश्वदेवताह्नस्य मधतो द्वादशाहीनस्य निज्ञस्य दवेर्यत्रायाचलोमः क्रियते वत्सस्यै कस्तन भागैः शोचैकस्तनम् प्रथमभयेत्य छत्वाधत्रेण चतुर एतद्वये क्षुरभविनाम प्रदयेण ेन सत्त्वावैकमेतन्तमस्त्यगं कर्ण्यमथोजते प्रजावशुभर्यवागोराजन्यस्य व्रतम् क्रोर वागो क्रोरैव्या वज्रस्य लोपं समृद्ध्यामिष्ठा वेश्यस्य वागयज्ञस्य लोपम् पुष्टेवयो ह्मणस्य चोपेणस्ते जःपयस्ते च सैव च जःपय आत्मन् सत्यजोपय सा वे गर्भा वर्भन्ते गर्भय खलु वा एोयदस्य वयो व्रतम् भवत्यात्मानमेव देवा प्रातम् मध्यन्ति ने सायन्तन्मनो मतमाधिपाकरण्यस्य रूपम् प्रातश्च सायन्तासुराः मध्यन्तधो लोपान्तरस्ते मनाभवन् मध्यं दिने मध्यरात्रे मानान्तरस्ते स्वर्गम् लोकवायण यजस्य मध्यञ्जने मध्यरात्रम् भवति मध्यतो वा अन्येन भुञ्जते मध्यद हे मदतोर्जन्ध भ्रातव्या विभो चे भवत्यात्मना परास्य भ्रातव्या भवति गर्भो वा योजेक्षिविमिद यद्येक्षितो यो देक्षितमिदा प्रभे गर्भस्कन्द्रादृ दे स्तस्माद्योत्थाय हन्तो न प्रवस्तव्यदक्षिणदः शलेनमाणस्यायतनस्वैवायतनेशयेमभ्या वृत्यशरे देवता एव यज्ञमभ्या वृत्यशये पुरोह विषदेव यजनेयाजये ै नमत्परा यज्ञानमेतभितु वर्गन् लोकञ्च ये यस्यमत्यभिजुवर्गन् लोकञ्च यत्याप्येदने राजये भ्रातृजवन्तं पन्थावण्णातमेण रथा न्दे वैदनमाप्नोत्येव भ्रातरु व्यन्नयनं भ्रातरुप्नोत्येकोन्नदे वैद्य पशुकाममेकोहान्नदा द्वेदे वैजनारङ्ग्यः पशोजन्तां परा नैव कस्य लोकमायम् नन्तराः वलीयं च विर्धानं चाणिगस्यान्तराः विर्धानं च तदश्चान्तरा तदश्च कारुभवत्यं चैजद्वै प्रे वयजनकम् सुवर्गमेव लोकमेदि प्रतिष्ठिते दे वैजनेनादये प्रतिष्ठा कामवेदद्वै प्रतिष्ठितन्ते वयजनय सर्वदस्समम् प्रत्ययपतिष्ठते पशूनागं रोपकं रोपेण यज्ञं ग्राहय यमित्ते तस्मैतं भयजनैसदृश्ये दालक्षन्ते वास्त यज्ञं ग्राहय दिव्यावृत्तयादयत्कामय्यं पात्र वाल्पे वामेवागुंसन् वाचेदमाहवीय स्यात्मतेन कारुभवत्यादे तद्वै यावर्तन् दे वयजनम् यवात्मनाभ्यादर्वेनावर्तते नैनम् पात्रेण दल्पे मेवापुंसन्ते कार्ये देवयजनेयाय भूतिकामम् कार्यो वैपुरुषो भवत्येव भ्य उत्तरवेदस्य कुम्भीरूपम् कृत्वा भयानन्तरा वक्रम्यानिष्ठत्य देवामन्यम् भविष्यन्ति तामुपामन्त्रयन्तरं वृणेधर्वान्वया कामान्यष्टवधूर्वान्तु माज्ञेराहुयरष्टवस्मादुत्तरवेदिम् पूर्वामज्ञान् व्याघायन्ति वारवतज्ञया परिमिते श्रीसाधो युक्ते नैव युक्तमवरुन्धे वित्तायनि मेघेत्याः वित्ताख्य नानावत् वित्तायनि मेघेत्याः विक्तालख्य नानावदवतान्मानाचितमित्याहनासितावदवतान् मा व्यचितमित्याहव्यचितावद्विदयज्ञं नभो नामाग्ने अङ्गिरयित्रग्रयस्तानेवावरुन्धे तोष्टे त्याहयजमानमेव प्रजयावे चोक्षप्रजगिरतिन्द्रघोषस्त्रावस्ता दिग् क्ष देवागस्त्यैरुत्तरवेत्यधरा देवानभ्या इन्द्रदा इन्द्रो नोजमारुद्रे पश्चा दिशम्मादित्यैरुत्तरतोमुत्तरवेणिक्षैभ्यजमानो भ्रातरुन्द्रो येच्छ दक्षिणदवुत्तरवेद्यामुच्चिष्य दक्षिणवोत्तरवेद्येन न ये च देव तत्र क्रोरम् दत्तेन समयदयम् दश्यात् सन्ध्यायाच्च देवेन अर्पयति स्वातर वेद्रवेत् सर्वान्मगाकामान्यश्च वसेति ते देवा कामयन्तासुभान् भ्रातु्यान विभवे मे दिते जुगवस्य गुणेन सर्वत्र साधे स्वाहे देऽसुभान् धातुव्यानभ्युभवन्ते सुभान् धातुव्यान विभोजाकामयन्त प्रजां विन्दे महे दिते जुगवस्य प्रजापनिस्वाहेति प्रजामविन्दन्त प्रजां वृत्ताकामयन्त वशोलविन्द तेजुगवस्य नव निस्वाहे जिते पशो न विन्दं दते पशो न व्याघारे निपञ्चाक्षरा वन्द्यः पान्तो यज्ञो यज्ञमेवा वृन्दे व्याघारेष्मादक्षा बलवाङ्कारिप्रहे प्रदै भूज्यस्त्वदेवाभूतास्तेषां तद्भागधेयन्तानेव तेन प्रेणालिपौरुद्रवान् परिधेन् परिधात् तेषां रागाणां विधृत्याग्नेयो ीस्पति मेपूर्वे ज्ञमेव सम्भरक्तज्ञे केदत्पुरेश यत्सम्भाराहुरे देवा वैदन्तेभ्यातरः परिचयत् पौद्रवाः परिधयै दे बद्धमस्तवर्णपाशा देवेन मञ्चरि दे प्रणयनेभ्यदेवेनत्रयम् दे च भूत्वाह विद्धाने त्वा यद्वैपत्रे यज्ञस्य करोति विधन्त्यान्विख्यागुंसु ृग्भ्यां वर्पनात् यज्ञवद्देवजुहो दिनान्धवं रक्षागं जज्ञन्ति प्रारं कम्पयन्तेर्गमेवत्र न ष्पं पृथिव्याद्ध विर्धानं दिवो वाविष्टिव्या इत्याशेत्वदयत्या दक्षिणस्य विर्धानस्य मेधेन्निहन्दिशेदय एव यज्ञस्य गिजमान आरुपरुन्द्रे बन्धो वातीयस्य विर्धानस्य वरःकालेणाक्षमक्षिणद्य तृतीयश्चर्धानयोरुधा क्रियते तृतीयस्य विर्धानः धानिष् पृष्ठ मेरे तस्ताशि विश्योद्योष्ण ध्रुवम से प्रथम कंचिछयामी स विश्व देव साल सैद प्रसव इतभ्रिवादत्ते प्रसोश्भ्याश्नोवाहतेक्षाकिखागुंसिता त्याग्रेवाभित्या हद्वो वामपुरुषोयञ्च द्वैजयश्चैयम् द्वैते वान्तरायङ्ग्रे वा कृन्तरि दिवे त्वान्तरिक्षाय प्रापथिव्येत्याहैभ्यः प्रोक्षति परस्तादर्वाजे प्रक्षाय मनुष्य क्रोरमिहपा एतत्करोति यत्खणत्यपोपनयति शान्ते रवनयुम्बरं समर्जयति गामाने भादयस्ते ेवत्या निखाता स्यात् बलेरवस्थैर्यमिणोत्यस्यामेवेनारुहमेवेनाग्रस्तभान्तरिक्षं प्रणेत्याहैषां लोकानां विधृत्यैद्युदानस्त्वा मारुतो विनोत्येत्याहद्विदानाहस्त्व मारुतो देवानामौतुम्बलीं विनोदेव देवैनां मिणोति ब्रह्मवनिन् त्वा क्षत्रवणिमित्याहयथा ीणेधामित्युम् वा पृथिवी एव रसेनावश्राम यान्दमेव क्षरात् पञ्चदश्रातु प्रजाकामस्य सप्तदश प्रजापर्य प्रजापते प्रतिष्ठा कामस्यैकवितोमानाम्प्रतिष्ठा प्रतिष्ठित्या उदरं वेदुम्बरो स्मान्मध्यतभुञ्जते यजमान लोके वे दक्षिणानि शदेकं जाजव्यलोकवत्तराणि दक्षिणान्युत्तराणि करो यजमानमेवायजमानादुत्तरम् करा यस्माद्यजमान यजमानादुत्तरोन्तर्भक्ताङ्करो दिव्यावृत्ते तस्मादरण्यम् प्रजा उपजेवन्तिपरित्वा गर्वह यथा यजदेवेतरिन्द्रस्य स्योरथेन्द्रस्य ध्रुवते हैन्द्रगुम्भिरेवदया तदोऽयम् प्रथमम् ग्रन्थम् ग्रथीयाद्यत्यन्न विश्रगुम्भेजमेर्यः प्रमेय तस्मात् स विश्रस्य शिरोवादेतैन्यस्य युद्ध विर्धानम् प्राणा उपलवाः विर्धाने खायन्ते तस्माच्छीर्षन् प्राणाधस्ताः खायन्ते तस्मात् चेष्टप्राणानक्षोहणो वरगा न वैष्णवान् घनामेजाः वैष्णवाय देवदयो बलवासुरा वै नृ्यन्तो देवानाः प्राणेनुवलान्य घनन्तान् बाहुमात्रेण विविन्दन्तस्माद् बाहु यन्त इदमहन्तं वरगमुद्ववामियन्नः समाना विपदमानान् जकारेत्यापुरुषो यश्चैव समानो यश्चासमानोऽयमेवलकन्निखरदस्तमेवोद्वदिनत्यन्तरत प्राणान्त्यस्मात् सम्भिन्ना प्राणा अपोपनेतस्मादान्तरतः प्राणाय प्राणा उपरवा ेवोजं तथा चिबिणवस्ना प्राणाघारेदि तेजोवाज्यं प्राणा उपरवाः प्राणे श्रेव तेजो तथा हनु वा एते यज्ञस्य विधिषवेन लोपे संस्कृशलो वा एतज्ञस्य युद्ध विर्धानं प्राणा उपरवाहनो अधिषवने ऋवाजन्मग् यदा मुखं गच्छत्यञ्जः परे विराजो यज्ञमुखे दोहं वेदेव वत्सारित्युजो दुहम् ऋतो मप्पयोज एवम् वेददुःखमेवैना ओ